स्वाधिष्ठया॒ मदिष्ठया पवस्व सोमधारया इन्द्राय पातवे सुता स्वादिष्ठया मदिष्ठया पवस्व सोमधारया इन्द्राय पातवे सुताः स्वाधिष्ठया मधिष्ठया पवस्व सोमधारया इन्द्राय पातवे सुताः